श्री गुरुभ्यो नमः हरिः ॐ भूमिर्भुम्नाद्यौर्वर्णान्तरिक्षं महित्वाम् उपस्थेते देव्यदितेऽग्निमन्नादमण्डाद्यायादेव आयाङ्गौः प्रश्नेरक्रमिदं सनन्मातरं पुनः पितरं च प्रयच्छु वः त्रिगंसद्धामा विराजति वाक्पतङ्गाय श्रिये प्रत्यस्य वहद्युभिः अस्य प्राणादपानत्यन्तश्च रतिरोचनां व्यक्षन्महिषु वः यत्त्वा आक्रुद्ध परोवं पं मण्डुना यदवर्त्यां सुकल्पमग्निः तत्तव पुनस्त्वो दीपयामसि यत् ते मण्डु आदित्या विश्वे तद्देवावसवश्च समामरन् मनोज्योतिर्जुषता माद्यम् विच्छिन्नं यज्ञकं समिमं दधातु बृहस्पति सनुतामिमम् नो विश्वे देवा इव मादयन्ताम् स॒प्त अग्नि सविध सप्त जिवाः स॒प्त ऋषयः स॒प्तधामा प्रि॒याणि सप्तहोत्रा आ स॒प्त धात्वा यजन्ति सप्तयो निरा पृणस्वा घृतेन पुनरुर्जा पाहि विश्वतः सह रह्यानि वर्तस्वाग्ने पिण्स्वधारयां विश्वप्सिनयां लेखः सलेखः सुलेखस्तेन आरित्या आज्यं जुषाणाभियन्तुकेतः सकेत सुकेतस्तेन आरीत्या आज्यं जुषणावियन्तु विभ स्वागम् विजन्तु मेदिनीदेवी वसुन्दरां वासवी ब्रह्मवर्चस पितृणागं श्रोत्रं चक्षुर्मणः देवी हिरण्यकर्मिणी देवि प्रसूवरी सदने सत्यायने सीतासमुद्रवती सावित्री ह नो देवी मय्यङ्गे ए महीधरणि महोव्यसिष्ठा सृङ्गे सृङ्गे यज्ञे यज्ञे विभीषिणे इन्द्रपत्नी व्यापिनी सुरसरीदिह वायुमती जलसयनी श्रियं धाराजा सत्यन्धोपरिवेदनी सोपरि धत्तं परि गाय विष्णुपत्नीं महीं देवीं माधवीं माधवप्रियां लक्ष्मीप्रियसखीं देवीं न मां ॐ धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धरा पृचोदया आत् महिं देवी विष्णुपत्नीमजुर्यां प्रतीनागम् मेन हविषायुजामः श्रीधा विष्णुरुगायो विचक्रमै महिं दिवं पृथिवीमन्तरिक्षम् तच्छ्रोणितै श्रिवम् इच्छामाणां पुण्यग्रश्लोकं यजमानाय कृण्वति ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ